यः ओषधीः ओषधीः पूर्वाः पूर्वा जाताः पूर्वा जाता देवेभ्यः जाता देवेभ्यस्त्रियुगम् देवे त्रियुगम् पुरा त्रियुगमिति त्रियुगम् पुरेति पुरा मनेनो बभ्रूणाम् बभ्रूणामहम् अहाम् शतम् शतम् धामानि धामानि सप्ता सप्त चेती चतम्बाः वो अम्बा अम्ब धामादि धामादिसहस्रम् सहस्रमुता उदवाः वो रुहाः रुह इति रुहाः अडाः शतक्रत्वः शतक्रत्वो यूयम् शतक्रत्व इति शतक्रत्वः यूयमिमम् मे अगदम् अगदम् क्रेता कृतेती कृता गोषाधीप्रती प्रदे गुर्भीता गर्भीत पुष्पावतीः पुष्पावतीयः प्रसुवारीः पुष्पावतीरिति पुष्पापतीः प्रसुवारीरिति प्रासुवारीः अश्वाहायिव सजित्रादीः अश्वाहायिवेत्यस्वाहा इवा सजित्रायैरवेः सचित्तदेविति सा विद्वीः विरुधः पारयुष्माः पारयिष्म इति पारयुष्माः कोषजीविती इति मातरः मातरस्तत् तद्वाह को देवी देवीरुपा उपब्रुवे ब्रुव इति ब्रुवे सनेयमस्वम् अश्वङ्गाम् गाम् वासाः वास आत्मानम् तव तव पूरुष पुरुषेति पुरुषा अश्वत्थे वानिषदानम् निषदानम् पर्णे निषदानमिति सदानम् पर्नेवाः वो वसतिः वसतिष्कृता कृतेति कृता गोभाजयिति गोभाजयिति गोभाजाः इतिला किला सखा असथयते यत्सनलाथा सनलाथपूरुषम् पुरुषमिति पुरुषम् यत्र औषधीः ओषधीः समग्माता समग्मतराजानः समग्मतेति सम् अग्माता राजानः समीता इव समिता इवेति समीतौ इव विप्रस्थः स उच्यते उच्यते बिषग् विषग्रक्षोभा रक्षोभामीव चाताः रक्षोहेति रक्षा अमीव चातमयित्य चातानः अश्वावतीये सोमभावतीम् अश्ववतीमित्यस्वावतीम् सोमावतीमोर्जयन्तीम् सोमवतीमिति सोमवतीम् ओर्जयन्तीमुदोजसम् उदोजसमित्युत् ओजसम् आवित्सि हवित्सि सर्वाः सर्वा ओषधीः ओषधीरस्मै अस्माकरिष्टता आतये अरिष्टता आतय नित्यरिष्टता आतये उत्सुष्माः सुष्मा ओषधीनाम् ओषधीनाम् गावाः गावो गोष्ठादीवः गोष्ठादीवेद गोस्थादिवेति गोस्थात् इव ईलत इति ईरते धराम् सनिष्यन्ति हीनाम् सनिष्यन्ति एनामात्माम् आत्मानन्तव तव पूरुष पुरुषेति पुरुष इष्कृतिर्नाम मानवः गो माता मातातो अथो यूयम् अथो यसो स्था स्थनिष्कृति निष्कृतिः कृतीः सेवापदत्रिणीः पदत्रिणीः स्तना स्तनयत् यदामयाति आमयातिनिः निष्कृथा कृतेति कृथा परिश्वाः विश्वापरिष्ठाः परिष्ठास्तेनैव परिष्ठा इति वरिष्ठा स्तेनैव व्रजम् स्तेन इवेति स्तेनः इव व्रजमक्रमुः अक्रमुत्यक्रमुः ओषधीप्रा प्राचित्यवुः प्रचुच्यव्रियते यत्किम् किञ्च शतम्ब्राः कम्भोरपाः प्रपदिरपाः यदिमाः इमा वाजयम् वाजयन्नहम् अहमोषधीः ओषजीर्हस्तेर् हस्ता आदधे आदधयित्याह दधे आत्मा यक्ष्मस्य य लक्ष्मणस्य नश्यति नश्यति पुरा पुरा जीवगृभाः जीवगृभो यथा जीवगृभ इति जीव गृभाः यथेती यथा तस्य उदसधीः ओषधीपसक्त्वथा पसङ्गमङ्गम् बलत्पथेति प्र तत्प्राभ अङ्गामङ्गम् परुष्परुः अङ्गामङ्गमिक्रङ्गम् अङ्गम् परस्परुति परुः परुः ततो यक्ष्मम् यक्ष्मम् इव आदधे वा दध्व उग्रः उग्रो मध्यमसीली वा मध्यमसीलिवेति मध्यमसीः इव सा किम् यक्ष्मा यक्ष्मप्रा प्रपाता ि दीविना किकि दीविनेति किकि दीविना साकम् वाटस्य वाटस्य द्राज्याः राज्ञाः साकम् साकम् वस्या नस्य निहाकय निहाकयेति निकया अन्या वा्याम् हन्याः करो अवद्वन्व्या अन्यान्यस्याः अन्यस्या उपा उपावता अवतेत्यावता आ सर्वाः सर्वाः संविधानाः संविधाना इदम् संविधाना इति मे मे प्रावता अवता सचाः वच इति वचाः पाः कलिनीः वचा वचा जा कलिनीरफलाः अफला पुष्पाः <small> अपुष्पायाः याश्च च पुष्पिणीः पुष्पिणीरिति पुष्पिणीः बृहस्पतिप्रसूतास्ताः बृहस्पतिप्रसूता इति बृहस्पतिप्रसूताः ता नः नो मुञ्चन्तु मुञ्चन्त्वां हसः आम् हस इत्यां हसः मुञ्चन्तो अतो वरुण्यात् अधो इत्यतो वरुण्याद्भुता उते अतो यमस्य अधो इत्यतो यमस्य पद्वीशात् पद्वीषात् सर्वस्मात् सर्वस्माद् देव किल्विषात् देव किल्विषादिति देव किल्विषात् अवयती सन् अवयतीरित्याव यतीः समवदन्त अवदन्त दिवः दिव घोषाधयः घोषाधयः परि परी विपरी किम् दीवम् दीवमस्नवाहामहै अस्मवाहामहै स दिष्यादि ऋष्यादिपुरुषः पुरुष इति पुरुषः ओषधीः <्याँ> ओषधीः सोमराज्ञीः सोमराज्ञीयद्बह्वीः सोमराज्ञीरिति सोमराज्ञीः बह्ल्वीय शतवीचक्षणाः शतबीचक्षणा इति शतवीचक्षणाः राधा आमसि सि त्वम् त्वमुत्तमा उत्तमानम् उत्तमे द्युत् तमा अनकामाय कामाय सम् साम् हृदे हृदय इति जीवनु अन्वित्यनु बृहस्पतिप्रसूता अस्यै बृहस्पतिप्रसूता इति बृहस्पतिप्रसूता अस्यै सन् सं, सन्दत्ता दत्तवीर्यम् वीर्यमिति वीर्यम् चेतम् इदमुपशृण्वन्ति उपशृण्वन्तिः उपशृण्वन्तीत्युपशृण्वन्ति याश्च च दूरम् दूरम् परा आगताः परा आगता इति पराः गताः सर्वाः सङ्गृत्य सङ्गृत्य ईलध्वः सङ्गत्येति संकृत्या ईरुधोऽस्यै अस्यैषाम् सङ्गत्तः दत्तवीर्यम् वीर्यमिति वीर्यम् नाशयित्रीबलासस्य कलासस्यार्षसः अर्षस उपचिताम् उपचितामसि उपचितामित्युपचिताम् असीत्यासि अथो शतस्य अथो नित्यतो ततश्च यक्ष्माणानाम् यजक्ष्माणानाम् पाकारोः पाकारोरसि पाकारोरिति पाका हरोः असि नासनी नासनीति नासनी माह ओषत् ऋषत्खनिता खनिता यस्मै यस्मै चाहम् ीवः विपश्चतुष्पदे विपदिति द्विपले चतुष्पदस्माकम् चतुःपदिति चतुः परे अस्माकम् सर्वम् सर्वमस्तु अस्त्वनापुरम् अनातुरमित्यानापुरम् वोषाधयः सम् संव्राजन्ते पुरन् रे सोमेन सोमेन सह सः राज्ञा राज्ञेति राज्ञाः यस्मै कृणोति कृणोति ब्राह्मणः ब्राह्मणस्तम् तामु राजन् राजन् पारयामसि पारयामसीति पारयामसि त्वाङ्गर्वाः गन्धर्वाःन् अखनग्रस्त्वा त्वामिन्द्राः इन्द्रस्त्वाम् त्वाम् बृहस्पतीः बृहस्पतिरि बृहस्पतिः स्वामो ओषधे ओषधे सोमः सोमो राजाः राजाः विद्वान् विद्वान्यक्ष्मात् यक्ष्मादमुच्यता त्वमुच्यतेत्यमुच्यता त्वमुत्तमा उत्तमासि उत्तमेत्युचितमा अस्योषधे ओषधे तव तव वृक्षाः वृक्षा उपस्तयः उपस्तय इत्युपस्तयः उपस्थिरस्तु अस्तु सः सोऽस्माकम् अस्माकं यः योऽस्मान् अस्मान् दासति अभिसतीत्यानिता जनितायः यप्रेसिः पृथिव्यायः योगाः वादिवम् विवाहम् सत्यधर्म सत्यधर्म मा सत्यधर्मेति सत्यधर्मे यश्च चापः अपश्चन्द्राः चन्द्राः प्रथमः प्रथमो जानजानकस्मैः कस्मै देवाय देवाय अविषाः अविषाः विधेम विधेनेति विधेम आवत्तस्व वत्तस्व पृथिवी पृथिवीयुज्ञेन यज्ञेन पयसा पयासा सहा सहेति सः भवान्तेः ते अग्निः अग्निरीशितः इषितो अरोहत् आरोहदित्यारोहत् अग्नेयत् यत्ते शुक्रम् शुक्रम् चन्द्रम् चन्द्रम् भूतम् पूतम् च त यज्ञियम् यज्ञियमिति यज्ञियम् तद्देवेभ्यः देवेभ्यो देवे भगामसि भरामसीति भरामसि भरामसी, इषमोजम् ओजमहम् अहमितः इव आदम् आदमृतस्य ऋतस्य योनिम् योनिम् महिषस्य महिषस्य धाराम् धालामिति धालाहम् आमाः मा गोषु गोषु विशतु विशत्वा तनूषु आतनूषु तनूषु जहामि जहामि चेदिम् चेदिमीराम् अमीरामी वा अमीही वामित्यमीही वाम् अग्ने तव तव श्रवाः राजन्ते अर्चयाः अर्चयो अविभावसो विभावसो, विभावसो इतिहासो बृहद्वा नो शवनसा बृहद्भानो इति बृहत् भानो शलसा वाजम् वाजमुख्यम् मुख्यम् ददा आसि तदा दासुषे दासुषे एकवे कव इति कवे पावकवक्त्राः शुक्रवक्त्राः पावकवत्रा इति पावकवच्राः शुक्रवच्च अनुवक्त्राः शुक्रवच्रा इति शुक्रवच्राः अनो नवचावुत् अणो नवच्च इत्यनो न वच्राः पुरीयर्हि यर्हि भानुनाः पुत्रो मातराः मातराः वितरन् विचनन्मुपा विचननिषीति चलम् उपावसि अवसि वृणक्षि वृणक्षि रोदसी रोदसी उभे रोदसीति रोदसी उभेत्युभे उद्यो नपात् नपाज्जातवेदः जातवेदः सक्तिभिः जातवेद इति जातवेदः सुषष्टिभिर्मन्दस्व सुषष्टिभिरिति सुषष्टिः मन्दस्वभीतिभिः भीतिभिर्मर्हितः भीतिभिरितिधीति क्लीः हित इति हितः क्लेयिषाः क्ले इति क्ले क्लिशस्तम् सङ्गधुः तदद्भूरीवर्पसः भूरीवर्पसश्चित्रोचायः इति वाम भूरी वर्पस भूरी वर्प्रोत वाजाता चिताजिय निरजन्म्नेशयस्व प्ररयस्व जंतु जंतुरश जंतुरी जंतु अस्मेराया अस्मे इत्यस्मे रायोः अमर्त्या अमर्त्येत्यामर्त्या स दर्शदस्य दर्शदस्य वपोषः वपोषो वी विराजसि राजसि वृणक्षी वृणक्षी सा नसिम् सा नसिम् क्रतुम् कथमिति क्रतुम् इष्कर्तालमध्वरस्य अचेतसङ्ख्ययम् अचेहेतसमिचित्त चेहेतसंक्षयम् ताम् राधासः राधासो महः मह इति महः प्रातिम् वामस्य वामस्य सुभगाम् सुभगाम् मयीम् सुभगामिति सुभगाम् मयीमिषम् इषम् ददासी तदासि नसीम् तानसीम् रयिम् रयिमिति रयिम् यतावाहनम् महिषम् यतवाहानमित्यवाहनम् महिषम् विश्वदर्णशतम् विश्वदर्ज शतमग्निम् विश्वदर्गशतमिति विश्वदर्णशतम् अग्निम् सुम्नाय सुम्नाय यधिरे यधिरे पुरः पुरो जनाः जना इति जनाः श्रुतकन्नाम् सप्रथस्तमम् श्रुतकण्डमिति श्रुतकम् सप्रथस्तमम् त्वा सप्रथस्तममिति सप्रथाः तमम् त्वायुरा ींव्यम् प्रेंव्यम् मानूषा मानूषा युगा युगेति युगा आप्यायस्व यायस्वतम् समे तु ये ते विश्वतः सोम सोमवृष्ण्यम् वृष्ण्यमिति भवा वाजस्य वाजस्य सङ्गते सङ्गत इति ते पयाज्ञ प्रयाज्ञसि सम् समूयन्तो ओम् लितुम् वाजाः वाजाः सन् समृष्ण्या आ वृष्ण्या अन्यभिमातृषाः आप्यायमानो अमृतानाय आप्यायामान इत्याप्यायमानः अमृतानाय सोमः सोम दिवि दिविश्रवाग्नेऽसि स्रवाग्रस्य स्रवाग उत्तमानि उत्तमानि विश्वा उत्तमानित्युत्स्तमानि विश्वेऽपि विश्वा आप्यायस्वा ्यायस्तमदिन्त मदिन्तमसोमा मदिन्तमेति मदिन् तमा सोम विश्वेभिः विश्वेभिरांशुभिः आंशुभिरित्यांशु भ्रीः भवानः न सप्रथस्तमः सप्रथस्तमः सखाः तमः सखाः विधे वृध इति विधे त्सः वत्सो मनः मनो यमद् यमत्परमात् परमाच्चित् चित्सधस्तात् तदस्तादिति सधास्तात् अग्ने त्वाङ्कामयाङ्कामया गिरा त्वाङ्कामये चित्त्वाम् कामया गिरेति गिरा, का गिरे गिरा त्वद्भ्यन्ताः रािरस्तम मङ्गिरस्तमविश्वाः मङ्गिरस्तमेत्यङ्गिरः प्रमा विश्वाः सुक्षितयाः सुक्षितयः पृथग् सुक्षितय इति सुक्षितयाः पृथगिति पृथक् अग्ने कामाय कामाय येमिरे येमिरदिति येमिरे अग्निप्रियेषु प्रियेषु धामासु धामासु धामाः धामस्विति धाम कामो भूतस्य भूतस्य भव्यस्य भव्यस्येति भव्यस्य सम्राणे काः सम्राडिति स्राट् एकोऽपि विराजति राजतीति राजति राजती। ओ <coughs> <ओं। coughs> मयि गृह्णामि गृह्णाम्यग्रे अग्रे अग्निम् अग्निम् राजः राजस्पोषाय पोषाय सुप्रजास्ताय सुप्रजास्ताय सुवीर्याय सुप्रजास्त्वायेति सुप्रजाः स्वाय सुवीर्यायेति सुवीर्याय मा देवताः देवताः सजन्ता सजन्तामिति सजन्ताम् ब्रह्मा जज्ञानम् जज्ञानम् प्रथमम् प्रथमम् पुरस्तात् पुरस्ताद्वी इति श्रीमतः श्रीमतः सुरुचाः सुरुचो वेनः सुरुच इति सुरुचाः वेन बुद्धिणः उपमाः उपमा अस्य उपमानित्यूप माः विष्टा मिष्ठा मिष्ठा सतः निस्ताः सतः च योनिम् योनिमसदः असतस्य चवी इवाः वरितिवः किरण्यगर्भः सन् हिरण्यगर्भ इति हिरण्य गर्भः समावर्तता वर्तताग्रे अग्रे भूतस्य भूतस्य जातः जातःपतीः पतिरेखाः एक आसीत् सीदित्या आसीत् सदाधारा दाधार पृथिवीम् पृथिवीम् व्याम् व्यामुता उपेमाम् इमाम् क्लस्मै क्रस्मै देवाय देवाय हविषाः हविषाः विधेमा विधेमेति विधेमा गप्तस्त स्कन्द्रा चष्कं पृथिवीम् पृथिवीमनु अनुद्या द्यामिमम् इमम् च योनिम् योनिमनो अनुयः यश्च च गोर्वाः गोर्वै गोर्वाः समाने योनिम् योनिमनु अनु सञ्चरन्तम् सञ्चरन्तम् लप्सम् सञ्चरन्तमिति सञ्चरन्तम् लत्सञ्जुभूमि होम्यनु अणु सप्त सप्तहोत्राः होत्रा इति होत्राः नमोऽस्तु अस्तु सर्वेभ्यः सर्वेभ्यो ये ये के के च ये अन्तरिक्षे अन्तरिक्षे ये ये दिवि दिवि तेभ्यः तेभ्यः सत्त्वेभ्यः सत्त्वेभ्यो नमाः नम इति नमाः या इषावः इषावो यादुधानाम् यातुधानाम् ये यातुधानानामिति यातु धानानाम् एवाः वा वनस्पतीम् अनस्पतीक्रीडनो अन्वित्यनो ये वाटेषु वा वावटेषु शेरते शेरतेभ्यः तेभ्यः ते सर्पेभ्यः सर्पेभ्यो नमाः नमजिति नमाः एवाः वामी अमीरो रोचने अमी इत्यमी रोचने दिवहा दिवो ये वा सूर्यस्य सूर्यस्य रश्मिषु रश्मिष्विति रश्मिषु एषा वप्सु अप्सु सदाः अप्सित्यपेत्सु सदस्कृतम् कृतवन्देभ्यः एभ्यः सर्पेभ्यः सर्पेभ्यो नमाः नम इति नमाः कृष्वराजाः जप्रसीतिम् प्रसीतिम्मा प्रसीतिमिति प्रसीतिम् प्रपृथिवीम् पृथिवी याहि या हि राजेव वा, राजेवामवाञ् प्रा राजे देवेति राजाः इव अमवाङ्ेन अमवानित्यम वान् इेनेतिभेन ऋष्वीमनो अनुप्रसीतिम् प्रसीतिम् नॄणानः प्र सीतिमानोस्ता अस्ता असी बिद्या बिद्याक्षसा रक्षसिष्ठ तपिष्ठ तव भ्रसा भ्रमास आसूया आसूयापत आसूएसु या पतन्ने नो अनस्पृशा स्पृशता धता सूचान ोऽसोचान इति सोऽशोचानः क्लभोऽग्निष्यग्ने अग्ने जिह्वा जिह्वा पतङ्गान् पतङ्गानसन्दितः असन्दितोऽमि न सन्दित इत्यसन्दितः विश्रेधा स्विजविश्वरे विश्वागुङ्काः गुङ्का इत्युङ्काः प्रसिः पशोमी विसृज सृजतोन्नीतमः तून्नीतमो भव तून्नीतम इति तून्नितमः भव आपायुः वायुर्विषः विशो अस्याः अस्या अदद्धः अदद्ध इत्यदद्धः यो नाः नो दूरे, दूरे अधसां सोऽयः अधसांसयित्रः सांसः यो अन्ति अन्त्यग्ने अनग्ने मातीः माविष्टे ते व्यसीः व्यतिरादधर्षीत् अवादधर्षीत् दधर्षी विजीदधर्षीत् उदग्ने अणमे तिष्ठा तिष्ठप्रति प्रत्यापृष्वा आतनुष्वा तनुष्वनित्रामित्राम् घोषतात् दोषतात् तिग्महेते तिग्महेत इति दिग्मा हेते यो नाः नो अरा आदिम् अरा आदीयम् समिधाना समिधानचक्रे समिधानेऽतीसम् विधाना चक्रे नीचा नीचा तम् तम् धक्षि धक्ष्यतसम् अकलसन्ना न शुष्टम् शुष्कमिति सुष्टम् ओर्ध्वो भाव भव प्रति प्रतिविद्या विद्याधी अध्यस्मत् अस्मदाविः आविष्केणष्व नृष्परीयुयानि ते द्येयुयान्यग्ने अग्न इत्यग्ने अवस्थिरा तनुहि यातु जोनाम् यातुजोनाम् यात जोनाम जामिम् यातुजोनामिति यातु जोनाम् जामिमजामिम् अजानामिम् प्रा प्रमृणीः वृणीः शत्रून् शत्रूणिति शत्रून् प्रणे त्वाः त्वा तेजसा तेजसा साधयामि साधयामीति साधयामि इन्द्रस्य त्वा तौजासा ओजासा साधयामि साधयामीति साधयामि भोः लिङ्गस्य लिङ्गस्य रजासः रजासश्च च नेपा नेपा यत्र त्रहा नियु नियद्भ सचा सेयुद्भि निुतभ सचा सेवा शिवाति शिवाभ दिलीम्धन मोद्धनमीशे दिशे स्वर्षा स्वर्षा जिह्वा स्वसिवाम अने चकृषे चकृषे हम यवाह हव्यवाहमिति हव्यहम् ध्वसि असि धर्मा धर्णास्त्रेता आस्त्रेता विश्वकर्मणा आस्त्रियेत्याेता विश्वकर्मणा विश्वकर्मणेति विश्वकर्मणा मा त्वा त्वा समुद्रः समुद्रवृत् उद्वधी वधीरन्मा मा सुपर्णः सुवर्णो व्यसमा सुवर्ण इति माना पृथिवीम् पृथिवीन्द्रियम्हा वे प्रजापातिः प्रजापातिष्त्वा प्रजापाधिरिति प्रजा पातिः त्वा साधयतु स्वादय त्वपा अवाम् पृष्ठे समुद्रस्य समुद्रस्येमन् ये मन् व्यजस्वतीयम् प्रथस्वतीम् रथस्त्व रथस्व पृथिवी पृथिव्यासी हसियोः भूर्भूमिः भूमिरदीतिः अदीतर्विश्वधानायाः विश्वधानाया विश्वस्य विश्वधानाया इति विश्वधामायाः विश्वस्य भुवानस्य भुवानस्य धर्त्री धर्त्री पृथिवीम् पृथिवीम् यच्छा यच्छ पृथिवीम् पृथिवीन्द्रेऽम्भाेम्भ पृथिवीम् पृथिवीम्मा मा हींस्रीः ह्रीं श्रीअर्विश्वस्मै विश्वस्मै प्राणाय प्राणायाः अपानाय अपानायूजानाय अपानायेत्य जा, पानाय जा, जानायो जानाय पुराणाय दीवि आनाय पुराणाय प्रतिष्ठावी पुराणाय द्योत् नाय प्रतिष्ठायै चरित्राय प्रतिष्ठाया इति प्रतिष्ठायी चरित्रायाग्निः अग्निष्ठा स्वाभि अभिपातु पातु मह्या मह्या स्वस्त्या स्वस्त्या छद्दिषा छद्दिषा सन्तमेन सन्तमेनतया सन्तमेनेति सम् त्वमेन या देवताया देवतायाङ्गिरस्वत् अङ्गिरस्वद्ध्रुवा ध्रुवा सीता सीदेति सीता काण्डात्काण्डात् प्ररोहन्ती काण्डात्काण्डादिति काण्डात् काण्डात् प्ररोहन्ति परोषः परुषः प्ररोहन्तीति प्ररोहन्ती परोषः परुषः परी परोषः परुष इति परोषः परुषः परी परी देवानाः नो दूर्वे सहस्रेण शतेन शतेन च चेती या शतेन शतेन प्रतनोषि प्रतनोषि सहस्रेण प्रतनोषीति प्र तनोषि सहस्रेण विरोहसि विरोहसीति वि प्रोहसि प्रस्यास्ते के देवि देवी इष्टके इष्टके विधेम विधेम हविषाः हविषाः भयम् भयमिति भयम् यास्ते हे अग्ने सूर्ये सूर्ये ऋचाः रुचो दिवम् दिवमादन्वन्ति आतन्वन्ति रश्मिभिः आतन्वन्तीत्या दन्वन्ति रश्मिभिरितिरश्मिभिः ताभिन्नः नो अद्य अद्य सर्वाभिः सर्वाभिरुचे कृते जना आय जना आयनः मस्कृहि कृहीति कृहि या वा सूर्ये सूर्ये रुचाः ऋचो गोषु नोष्वश्वे एषु अश्वेष् याः या रुचाः ऋच इति रुचाः इन्द्राग्नीः इन्द्राग्नि इति इन्द्राग्नि र्वा आचन्न नोधस्पते बृहस्पत बृहस्पतिराटती विराड़ी ज्योतिरधारये अचारय स्वराड स्वराज्योतीराड़ी स्वराड् ज्योतिरधारये अचारय प्रजाति प्रजापातिस्त्वा प्रजापातिरिति प्रजा पातिः त्वा साधयतु साधयतु पृष्ठे पृष्ठे पृसिंव्याः सिंव्या ज्योतिष्मतीम् ज्योतिष्मतीम् विश्वस्मै विश्वस्मै प्राणाय या, प्राणायामापानाय अपानायनाय अपानायेत्याप आनाय आनाय विश्व ज्योति ज्योतिर्यच्छा यहाँ अग्निष्टे तेधीपति अधिपतिया अपतिपति देवता या। देवता अंगिस्वध्रुवा ध्रुवा सी सीतमधो धश्च च माधवः माधवश्च च वासन्तिकौ वासन्तिकारो ऋतो अग्नेः ऋतो अग्नेरन्तः मन्त्रश्लेषोऽसि मन्त्रश्लेष इत्यन्तः श्रेशः असि कल्पेता कल्पेताम् व्यावाणापृथिवी व्यावाणापृथिवी कल्पन्तम् कल्पंता ओषादय कल कल्पंतामयानय पृथ्क् पृथक मेष सं सौरता ये सौरता इति स प्रताः ये अग्नयाः अग्नयस्तमानसः समानसोऽन्तरा समानस इति स मानसः अन्तरा द्यावाहासिवी द्यावाहाी इमे द्यावाप् इति द्यावाः इमे वासन्तिकौ इमे इति हि इमे ऋतु अभिकल्पमानाः ऋतो इत्युतो अभिकल्पामाना इन्द्राणिव अभिकल्पमाना इत्याभिकल्पामानाः इन्द्रामिव देवाः इन्द्राविवेदीन्द्रम् इव देवा अभिसंवीषन्तु अभिसंवीसन्तु तया अभिसंवीषन्तु इत्याभि संवीशन्तु तया देवताया देवतायाङ्गिरस्वत् अङ्गिरस्वद्ध्रुवे ध्रुवे सीदतम् ध्रुवे इति सीदतमिति सीदतम् अषायहासि असि सहामाना सहामाना सहस्वा सहस्वातीः सहस्र सहस्रवृतनायतः वृतनायत इति पृतना यतः सहस्रवीर्य्यासि सहस्रवीर्येति सहस्रवीर्य्या असि सा माः मा जिन्वा जिन्वेति जिन्वा सहस्रे माः इमा अभिमानातीः अभिमानाती सहस्रा अभिमातीत्यभिमाहतीः सहस्वपृतमायतः पृतनायत इति पृथमा यतः सर्वस्व सर्वं सर्वम् प्राप्मानम् सहमाना सहमानासि अस्य ओषधे ओषध इत्यो ओषधे मधुवाता आह पातागृताय वितायते मधु पितयत इत्यरेता यते मधुक्षरन्ति क्षरन्ति सिन्धर्वः सन्धारीति सिन्धर्वः माध्वीलम् न सन्तो सन्तोषधीः ओषधीरित्योषधीः मधुनक्तम् नक्त मुदा उतोषसाः उषसो मधुमरे मधुमत्पार्थीवम् मद मधुमदिति मधु मरे पार्थीवाम् रजाः रजैः रजाः मधुदौ द्यौरस्तु अस्तु नः न पिता पितेति पिता मधुवान्महः मधुमानिति मधु मान वनस्पतिः वनस्पतिर्मधुमान् मधुमाम् अस्तु मधुमानिति मधु मान अस्तु सूर्याः सूर्यैः सूर्याः माध्वीर्गावाः गावो भवन्तु भवन्तु नः नैति गणः रम्भन् सील शीलमा मात्राः सासूर्याः चोर्योरि अभिताप्सीत् ताप्सीरन्मा माग्निः अग्निर्वैस्वानरः वैश्वानर इति वैश्वानरः अच्छिन्नवत्रा प्रजाः अच्छिन्नवत्रा इत्यच्छिन्न पत्राः प्रजानुवीक्षस्व जा इति प्राजाः अनुवीक्षस्वा नु अनन्वीक्षस्वेत्यनु वीक्षस्व अनत्वा दिव्या दिव्या वृष्टिः वृष्टिः सजताम् सजतामिति सजताम् त्रिलीन् समुद्रान् समुद्रान् सम् समासृते असुवत्स्वर्गान् स्वर्गान्पाम् स्वर्गानिति स्वः गवान् अपाम् पतीः परिवृषभः इष्टकानाम् इष्टकानामिति इष्टकानाम् पुरैः सम्वसानः वसाहानः वसा सुकृतस्य सुकृतस्य लोके सुकृतस्येति सुकृतस्य लोके तत्र तत्र गच्छ गच्छ यत्र यत्र पूर्वे पूर्वे परेताः परेता इति पदाः पिताः वासी अने प्रतामं तो ये ये प्रथम प्रथम मेंभ्यो्यो अभी क्योंभ्योनिभ्यधिजात जातवेदा इति जात वेदाः सदा गायत्र्या गायत्र्या तिष्ठुभाः तिष्टुभाः अनुष्टुभाः तिष्ठुहेपि त्रिस्तुभा अनष्टुभा च अनुष्टुहेऽत्र नु स्तुभाः प्रजान्शि प्रशे आए सहसे क्रमस्व सहासे सहासेदुम दुम ऊर्जे ऊर्जे अप्याय अपत्याय्च्राजी संराजति सन्त्राट् असि स्वराट् स्वराजसि स्वराजति स्वत्राट् असि सारस्वतौ सारस्वतौ भवतामित्यावताम् अग्ने युक्ष्वा युक्ष्वाही हि ये ते तव तवा स्वासः अस्वासो देव देव साधवाः साधव वहन्ति वहन्ति मन्यवे मन्यव इति मन्यवे युक्ष्वाही हि रे बभूतमान् ते बभूत माम् अस्मान् ूतमा देव होता अस्प रेसी कथी वेती रसी होता होता पूर्य पूर्य सद सदजिती सद